द्व्यशीतितमोऽध्यायः वैशम्पायनोवाच श्रुत्वा कुमारं जातम् तु देवयानी शुचिस्मिता चिन्तया मासदुःखार्ता शर्मिष्ठाम् प्रतिभारत अभिगम्य च शर्मिष्ठाम् देवयान्यब्रवीदिदम् देवयान्युवाच किमिदम् वृजिनम् सुभ्रुक्कृतम् वै कामलुब्धया शर्मिष्ठोवाच ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः समयावरदः कामम् याचितो धर्मसंहितम् नाहमन्यायतः काममाचरामि शुचिस्मिते तस्मादृशेर्ममापत्यमिति सत्यम् ब्रवीमिते देवयान्युवाच शोभनम् भीरु यद्येवमथ स ज्ञायते द्विजः गोत्रनामाभिजनतो वेत्तुमिच्छामि तम् द्विजम् शर्मिष्ठौ उवाच तपसा तेजसा चैव दीप्यमानम् यथा रविम् तम् दृष्ट्वा मम सम्प्रष्टुम् शक्तिर्मासीच्छुचिस्मिते देवयान्युवाच यद्येतदेवम् शर्मिष्ठे न मन्युर्विद्यते मम अपत्यम् यदि लब्धम् ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् वैशम्पायनोवाच अन्योन्यमेव मुक्त्वा तु सम्प्रहस्य च ते मिथः जगामभार्गवी वेश्म तथ्यमित्यवजग्मुषी ययातिर्देवयान्याम् तु पुत्रावजनयन् नृपः यदुम् चतुर्वसुम् चैव शक्रविष्णो इवापरौ तस्मादेव चा तु राजर्षेः शर्मिष्ठा वार्षपर्वणि द्रुह्युम् चानुम् च पूरुम् च त्रीन्कुमारा नजीजन ततःकाले स्मिता ययातिसहिता राजम् जगामरहितम् वनम् ददर्श च तदा देवयान्युवाच कस्यैते दारकाराजन् देवपुत्रोपमाः शुभाः वर्चसारूपतश्चैव सदृशा मेमतास्तव वैशम्पायन उवाच एवम् पृष्ठ्वा तु राजानम् कुमारान्पर्यपृच्छत देवयान्युवाच किम् नामधेयम् कश्च वः प्रब्रूतमे यथा तथ्यम् श्रोतुमिच्छामि तम् ह्यहम् एवमुक्ताः कुमारास्ते देवयान्या सुमध्यया ते दर्शयन् प्रदेशिन्या तमेव नृपसत्तमम् शर्मिष्ठाम् मातरम् चैव तथा चख्युश्च तारकाः वैशम्पायन उवाच इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः नाभ्यनन्दततान् राजा देवयान्यास्तदान्तिके रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः श्रुत्वा तु इव पार्थिवः दृष्ट्वा तु प्रणयम् पार्थिवम् प्रति बुद्ध्वा सा देवि शर्मिष्ठामिदमब्रवीत् देवयान्युवाच अभ्यागच्छति माम् कश्चिदृषिरित्येमवब्रवीः ययातिमेव नूनम् त्वम् प्रोत्साहयसि भामिनि पूर्वमेव मया प्रोक्तम् त्वया तु वृजिनम् मदधीनासति कस्मादकार्षीर्विप्रियम् मम तमेवासुरधर्मम् त्वमास्थिता न शर्मिष्ठोवाच यदुक्तम् ऋषिरित्येव तत्सत्यम् चारुहासिनि न्यायतो धर्मतश्चैव चरन्तीन बिभेमिते यदा वृतो भर्ता वृत एव तदा सखी भर्ताहि हि धर्मेण भर्ता भवति शोभने पूज्यासि मममान्या च ज्येष्ठा च मे पूज्यतमो राजष्येः किम् त्वत्पित्रा गुरुणामे च सह दत्ते उभे शुभे तव भर्ता च पूज्यश्च पोष्याम् पोषयतीह माम् वैशम्पायनोवाच श्रुत्वा तस्यास्ततो वाक्यम् देवयान्यप्रवीदिदम् राजन्नाद्येह वत्स्यामि विप्रियम् मे त्वया सहसोत्पतिताम् श्यामाम् दृष्ट्वा ताम् ूर्णम् सकाशं काव्यस्य प्रस्थिताम् व्यथितस्तदा अनुवव्राजसम्भ्रान्तः पृष्ठतः सान्त्वयन्नृपः न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना अविब्रुवन्ती किञ्चित् सा राजानम् साश्रुलोचना अचिरादेव सातु पितरं ृष्व पितरम अभिवाद्या्रतस्थि अनतरम यु पूजयासभागवयाुवाच अधर्मेण जिता धर्म प्रवृत्तमधरोस् दुहित्र वृषपर्वण तेजनिता पुत्र राज यति दुर्भगाया मम्ताब्रवीत राज अति मद्यकथयामी ते शुक्र उवाच धर्म सन्माराज योध प्रियजरामचिरा धर्शयति दुर्जया ययातिरुवाच ऋतुं वैयाचमानाया भगवन् दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतम् ऋतुं वैयाचमानाया न ददाति पुमान् ऋतुम् ब्रह्मन् स ब्रह्मवादिभिः अभिकामाम् स्त्रियम् यश्च गम्याम् रहसि नोपैति स धर्मेशु भ्रूणहेच्य बुध यदाचति मचिद तत्देय व्रतमसा दत्ता मे नान्यं नाथ मिक्षति मैत धर्म कृतम ब्रह्मण क्षमस्व मेता समीक्ष्याह कारण भृगुद्व अधर्मभयसंविघ्नः शर्मिष्ठामुपजग्मिवान् शुक्रौ वाच नन्वहम् प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव मिथ्याचारस्य धर्मेषु चौर्यम् भवतिनाहुष नाहुश वैशम्पायनोवाच क्रुद्धेनोशनसा शब्दो ययातिर्नाहुषस्तदा पूर्वम् वयः जराम सद्योन्वपद्यत ययातिरुवाच अतृप्तो यौवनस्याहम् देवयान्याम् भृगूद्वः प्रसादं कुरु मे ब्रह्मम् जरेयम् न विषेच्यमाम् जराम उवाच नाहम् मृषाब्रवीम् येतज्जराम् जराम् त्वेताम् त्वमन्यस्मिन् सङ्क्रामयदीच्छसि या ययातिरुवाच राज्यभाक्सभवेद्ब्रह्मन् पुण्यभाक् कीर्तिभाक् तथा यो मेद्याः पुत्रस्तद्भवाननुमन्यताम् शुक्रोवाच सङ्क्रामयिष्यसि जराम् यथेष्टम् न हुषात्मज मामनुध्यायभावेन न पापमवाप्स्यसि वयोदास्यतिते पुत्रो यस्सराजा आयुष्मान व्यो दाती युष्मा बहवपत्थ महाभार ययात्युपाख्याने संभवपर्वि युप्याशीतितमोध्याय